प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव यं स्म सोमः समारुह्य दानवानजयत्प्रभुः नवमेघप्रतीकाशम् ज्वलन्तमिव च श्रिया आश्रितौ तं रथश्रेष्ठं शक्रायुधसमावुभौ चिरा ध्वजि मत्यान। तस्व्य सिंहशादूल केतन दिधक्षव तम संस्थि मूर्धन्यशोभत ध्वजूतास विविध महां नादेन रिपुसैन्याना येषां संज्ञा प्रणश्यति सतं नानापताकाभिः शोभितम् रथसत्तमम् प्रदक्षिणमुपावृत्य दैवतभ्यः प्रणम्य च सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रकः आरुरोह तदा पार्थो विमानं सुकृती यथा तच्च दिव्यम् धनुःश्रेष्ठम् ब्रह्मणा निर्मितम् पुरा गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः हुताशनम् पुरस्कृत्य ततस्तदपि वीर्यवान् जग्राह बलमास्थाय ज्यया च युयुजे धनुः मौर्व्यां तु योज्यमानायां बलिना पाण्डवे नः ये शृण्वन् कूजितं तत्र वै व्यथितं मनः लब्ध्वा रथं धनुश्चैव तथा क्षय्ये महेषुधि बभूव कल्यः कौन्तेयः प्रहृष्टः सा ह्यकर्मणि वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः आग्नेयमस्त्रन्दयितं स च कल्यो भवत्तदा अब्रवीत् पावकश्चैव मेतेन मधुसूदन अमानुषानपिरणे जेष्यसि त्वमसंशयम् अनेन तु मनुष्याणाम् देवानामपि चाहवे रक्षः पिशाच दैत्यानां नागानां चाधिकस्तथा भविष्यसि न सन्देह प्रवरोपि प्रवर्हे